अथ पञ्चदशोऽध्यायः युधिष्ठिर उवाच वासुदेव महाबाहो विस्तरेण महामते सौभस्य वधमाचक्ष्वन हि तृप्यामि कथ्यतः वासुदेववाच हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृप उपायाद्भरत श्रेष्ठ शाल्वो द्वारवतीम् पुरीम् अरुन्धत्ताम् सुदुष्टात्मा सर्वतः पाण्डुनन्दना शाल्वो वैहायसं चापि तत्पुरं व्यूह्यविष्ठितः तत्रस्थोऽथमही पालो योधयामास तां पुरीम् अभिसारेण सर्वेण तत्र युद्धमवर्तत पुरी समन्ताद्विहिता सपदाकाशतोरण सचक्रासहुडा चैव सयन्त्रखनका तथा सोपशल्यप्रतोलीका साटाटालक गोपुरा सचक्रग्रहणी चैव सतो मराङ्कुशाराजन् सशतघ्नीकलाङ्गला स भुषुण्ड्यश्म गुडका सायुधा स परश्वधा लोह चर्मवती चापि साग्निः स गुडशृङ्गिका शास्त्रदृष्टेन प्रतिवारणे हतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता उत्क्षिप्तगुल्मैश्च तथा हयैश्च स पताकिभिः च नगरे न परिरक्षद्भिरुग्रसेनोद्धवादिभिः प्रमत्तेष्वभिघातं हि कुर्याच्छाल् इति कृत्वा प्रमत्तास्ते सर्वे वृषण्यन्धकाः